ो वै देवायज्ञाय पुनदतगेवा भवनय एवम् विद्वान् यज्ञाय पुनीते भवत्येव बहिः पवयित्वान्धः प्रपादयति मनुष्यलोक एवैलम् पवयित्वा भूतम् देवलोकम् प्रणयच्छ दीक्षितगै गयाहुत्येऽप्याहस्रुवेण चतस्रो जुहोदिदीक्षितत्वागश्रुचा पञ्चमीम् पञ्चा क्षरा पङ्क्तिः पान्तो यज्ञो यज्ञमेवावरुन्ध आकोत्यै प्रयुजज्ञे स्वाहेत्याको याहि पुरुषो यज्ञमभिप्रयुं ते यज येति मेधा ये मनसे ज्ञे स्वाहेत्याह मेधया हि मनसा पुरुषो यज्ञमभिगच्छति तरस्पत्त्वे कोष्णे ज्ञे स्वाहेत्याह वा रस्पते पृथिवी पूषावाचैव पृथिव्या यज्ञं प्रयुंस आपो देवे बृहतेर्विश्वशम्भु भगित्या हयावे वर्ष्यास्ता आपो देवेर्बृहतेर्विश्वशम्भुभो यते तज्जुर्नभ्रूया दिव्या आपोषान्ता इमं लोकमागच्छे य आपो देवे बृहतेर्विश्वशम्भु भयित्यास्माय लोकायशमयतिरस्मान्ता इवं लोकमागच्छन्ति वा पृथिवीमित्याहव्या वा पृथिव्योरि यज्ञपुर्वान्तरिक्षमित्याहान्तरिक्षे हि यज्ञो बृहस्पतिर्वाहविषा वृथा ब्रह्म मे ृथायज्ञस्थानमेव परिवृणक्ति प्रजापत यज्ञमश्रिदसोऽष्टेत्स प्रयजलमे नापदमृदयच्छद्यो ग्रहणस्य ग्रहणत्वमृदाजुहो यज्ञस्य जत्या नृष्ट छन्दसामुदयच्छदित्यास्मादृष्टुभाजुहो यज्ञस्य द्यत्यै द्वादश ्युदयच्छन्नित्याहुस्तस्मात्वात्सबन्धमिदो दीक्षयन् विसा वागेर्ग नष्टग्भाग नष्टग्यते यादे वाचे मे नीक्षयति विष्मे देवस्य नेतरित्याह सावित्र्ये तेन वृणेत लक्ष्यमित्याहमिदेवत्यैतेन विश्वे नागक्यतेत्याहवैश्व द्युम्नम् मृगेण पुष्यसहित्याः पौष्ठ्येतेन सा वायेषय देवयच्चाधेति सर्वाभिदेवैनं देवताभिदेक्षयति षष्टाक्षरं प्रथमं पदमष्टाक्षराणि त्रेण यानित्रेणतान्यष्टावुभयन्द्रियाणि चत्वारितान्यष्टौ यदष्टाक्षरा तेन गायत्री यदेकादशाक्षरा तेन तृष्टव्यद्वादशाक्षरातेन जगदीशावागेषत् सर्वाणि छन्दागम् श्रियते तयर्चादेक्षयति सर्वेऽभिदेवैनं छन्दोभिर्देक्षयति सप्ताक्षरम् प्रथमम् फलगम् सप्रभदाशक्वरि पशवः शक्वरि पशूनेवाबलुधगे कस्मादक्षरादनाथमम् फलन्दस्माद्यद्वाचो न नुष्या उपजीवन्ति पूर्णयाजुहोतिपूर्णयः प्रजापतिः प्रजापतेराप्ते न्यूनयाजुहोतिन्योनाद्यः प्रजापतिः प्रजासृजनप्रजानागम् सृष्ट्यै मृक्सा मे देवेभ्यो यज्ञाया तिष्ठमाने कृष्णरूपं कृत्वा वक्रम्या तिष्ठतां ते मन्यन्त्रयं वा इमे उपावत्सदस्य इदं भविष्यति उपामन्त्रयं ते अहोरात्रयोर्ममानमपनिधाय देवानुपावर्तेता मेशवारुजोवर्णो यच्छुक्रं कृष्णा विनस्यैततां स्थाने एवावृन्दो वन्दो यत् शुक्रं कृष्णादिनस्यैतरात्र्यायत्कृष्णै देवैनवावृन्धे दे कृष्णादिनेन दीक्षयति ब्रह्मणो वा एतद्द्रोपै यत्कृष्णार्जिनं ब्रह्मणैवीक्षयति दीक्षमाणस्य देवेद्याः यथायुदेवेतद्गर्भो वा एतद् दीक्षिण ृदय तस्माद् गर्भाः प्रावृता जायन्ते न पुरा भोमस्य क्रयादपोऽ पुरा भौमश्च क्रयादपोर्गेदगर्भा प्रजानां परा पातुकाश्चेते सोमेपोर्नृते जायत एव तथो यथा पृथिराजुं संरक्ष्यो नृदयदस्वर्गं लोकयन्तपोर्जं व्यभजन्त ततो यदत्य शिष्यते अभवन्नोर्गे धरायच्छल मये मेखलाभवत्योर्जमेवान्ध्य मध्यजस्सन्नश्य मध्य देव स्मावोर्जन् दधा दिवस्मान्मध्योर्जाभुञ्जनवोर्ध्वं वै पुरुषश्च नाभ्यै मेध्यमवाजे त्री यमो रथस्त्रीयं यो मस्त्रीन्दशराभवन्तं वज्रोमे शराः खलुष्यस्य भ्रातुर्यो यच्छरमयेव खला भवति वज्रेणैव मेखलया इन्दे क्षयति योत्रेण पत्नीज्ञो दक्षिणामभ्यमभवत्तरिन्द्रोजायत् सोमन्यतयोपायितो जरिष्यदे स इदं भविष्यति चितां प्राविशत्तस्या इन्द्रयवाजायत सोमन्यतयो वैमदितोप नष्यदे स इदं कृष्णविषाणां कृष्णविषांसयोमिन्द्रगुंसयो जित्वा कृष्ये त्वा सुस्या गायित्या हरस्मादकृष्टपच्छा वोढदयः पच्यन्द्रे सुवित्फलाभ्यस्तौषधेभ्य इत्या हरस्मादो ग्रन्थन्त्रि यद्धेन कण्ठो यज पामनम् भावुका प्रजागेत न भावुका कृष्णविषाणया कण्डोयते विकृष्ट स्मयते प्रजानाम् गोपीठा जनपुरा दक्षिणा भ्योनेतो ृतात्त्वा मे कृष्णविषाणा नास्य त्रयो निर्वे यज्ञस्तुतात्मा नज्ञो मे कृष्णविशाला यज्ञस्य श्रियो ै देवेभ्योपामद्विज्ञाया तिष्ठमानाधावनस्पदे प्राविशत्सैधामनस्पति सुमद्रियासन्तु भो यातो वीणाया यत् दीक्षतदण्डम् प्रयच्छति वाचमेवावरुन्धौतुम्बरो ुञ्जते क्रेतय सोमे मैत्रावरुणानुखण्डम् प्रयच्छति मेत्रावरुणो हि पुरस्ता धृत्येभ्यो वाचम् विभजिता मृत्युचो यजमानैः प्रतिष्ठापयम् यस्वाहा यज्ञम् मनसेत्याह मनसा हि पुरुषो यज्ञमभिगच्छति स्वाहा पृथिवेभ्या वित्या हद्यावापृथिव्योरि यज्ञस्वाहोरोहन्तरिक्षादित्याहान्तरिक्षैः यज्ञम् वा तादारभयत्याहायं वा वयः पवदे भजे मुष्टे कलौ देवाज गच्छति यज्ञस्त धृत्यादेक्षिष्टायम् भनयदितृपादुस्वाह देवेभ्य एवम् प्राहतृक्षेरुभयेभ्य एवैनम् देवमनुष्ठेभ्यः प्राहन पुराणक्षत्रेभ्य वाचम् विसृजे ह्यः पुराणक्षत्रेभ्य वाचम् यज्ञम् इच्छन्त्याक्षत्रे सुवाच विसृजयज्ञमेवाभिवाच विसृजयज्ञावेव यज्ञेनैव यज्ञनामहयित्याह यज्ञमेव तन्वृयति सुपादानासद्दश यत्याह व्यक्तमेवावरुन्धे ब्रह्मपादिनः वदन्ति होतव्यम् देक्षितस्य गृहातव्या मितिहमिक्षितो यजुहूयात् यजमानस्यापदायजुहूयात् जन्मजुहयाद्यज्ञपरतन्तरियाग्रे <्यों> देवामनोजातामनो यैत्याः <्यों> प्राणा हाज्ञमेवाधिवान् कृत्वा स्वपित रक्षसामवहत्या ने शेक्षिदस्वपि त्वमग्ने प्रतमाधेत्याहाज्ञवानां व्रतमदि एवं व्रतमानं भैति देवामत्तेष्वेत्याह देवसम्मते षत्वं यज्ञेष्वे ज्ञेत्याहैतमं हि यज्ञेश्वेरते पवैदेक्षिदाक्षुष इन्द्रियम् देवतामन्त्य विश्वे अभिमाण्डित्याहेन्द्रिये नैमैनम् देवताभिस्सन्नय दियदे तद्विजर्णभ्रूयावद एव पशोनभिरेक्षे तावन्ताश्च पशवस्योदा सोमा भूया भाः परिमिता नैव पशोनवरुन्धे चन्द्रमसि मम भोगाय भवे यथा देवतमेवेना प्रतिग्रन्थादिपायवे यत्वे जयदेवमेतानानुदिशे यथा देवतं दक्षिणायमये देवताभ्यो वृष्ट्ये जयदेवमेता अनुदिशति यथा देवतमेव दक्षिणायमय जयदेवताभ्यावृष्टते देवी रामोहान्नपालित्या हिध्वोमेभ्यङ्गिभ्यगुं सदेवन्तोमावक्रमिशमिति मावेददािन्नन्दन्तं पृथिव्या अनुगेशमित्या सेतुमेव कृत्वा त्ये देवाले दे च भयजनमध्यमसायति शो न प्राजान्ते न्यमुपाधावन्तः प्रजानामत्तयेतेत्यागुम् समर्थयन्तत्र प्रजानामे ऋताप्रवेश्वरम् प्रणेमप्रायणागेवो यज्ञामुदयणास्मादाधित्य प्रायणेन यज्ञानामादित्यमुदयनीयः पञ्चदेवताय निपञ्चनिक्षरापञ्चः पान्तो यज्ञो यज्ञमेवावरुन्धे मे प्रत्यागस्वस्तिमयजन्प्राचे मे पदयाति सम्प्राजानन्नग्निना दक्षिणा सोमे न प्रदे चलितविदानमिश्वा चितेञ्जलतेयं वा हृदि रस्यामेव याजास्यैव सा यज्ञस्य सन्ततिस्तत्तथा न कार्यमात्मा वै प्रयाजाः प्रजानो याजायत्प्रयाजानन्तरि याधात्मानमन्तरि याजनो याजानन्तरि यात् प्रजामन्तरि याज खलु वे यज्ञस्य विददस्य न क्रियते तदनु यज्ञः यज्ञं परा भवन्तज्ञमानानपरा भवति प्रयाजव देवानो जव उदयनेयन्नात्मानमन्तरप्रजान्तः परा भवति न यजमानः प्रायणे यस्य निष्कासमुदयनेयमभिशर्वपदि सैव सा यज्ञाः प्रायणे यस्य गाज्यायता उदयनेयस्य गाज्या कुर्यात्परागमं लोकमारोह प्रमाय कस्याज्ञाः प्राहिणेयस्य पुरोनुभाज्ञास्ता उदयनेयस्य गाज्ञा स्के प्रजतिषे कर्द्रोश्च वे सुपर्णेचा आत्मरूपयोरस्पर्धेतायुंसा कर्द्रोस्तु पर्णेम जगत्सा ब्रवीत् स्त्रियस्यामितो विविषमस्तमा हरतेनात्मानम् निष्क्रीणेष्वैदीयम् वै कर्द्रो रसोऽसु जगत्य चतुर्दशाक्षरा सतीथा प्रा पेण्यवर्तरथस्येद्वे अक्षरे अमीये धागुं सा पशुभिश्च दे प्रजागच्छत्तस्मा जगति छन्दसां पशव्यतमातस्पा पशुमन्तं देष्पनमतिष्ठत्रजोदशाक्षरा सतीथा प्रा पेन्यवर्तरथस्येद्वे अक्षरे अमीय धागुंसा दक्षिणाभिश्च तपसा लोके भाध्यञ्जिने सवले दक्षिणानि यन्तयेत्खलु पावदपयत्या वर्यश्वरक्षरा सत्यजया ज्योतिषातमस्याजाभ्यरुन्धतंसा मञ्चाहरच्छाक्षराणिक्षरासोपज ब्रह्मपातिलोपदन्तिकस्मात् सत्याज्ञायत्री कनिष्ठा छन्दसागम् सति यज्ञमुखम् पर्याये ते देवादस्व ममाहरक्तस्माद् यज्ञमुखम् पर्यये तस्मात् तेजस्मिनेतमापभ्यान् द्वे सवने समगृह्णान्जन्मुखेन समगृह्णात् तदशयप्तस्माद्वे सवने शुक्रवरेदस्सवनञ्च माद्यञ्जनम् च तस्मात् तृतीय सवनर्जेशमभिजृन्वन्ति धेटमि बहिमण्यन्त आशिरमवनयजतशुक्रया ेन सोममाणम् गन्धर्व विश्वामसु पर्यमुष्णास्रोरात्रे परिमिषुतोमसस्मा तिस्रोरात्रेः श्रीडस्सोमो मसदिते देवाब्रुमान् स्त्रीकामावे गन्धर्वा स्त्रियानुक्रीडामे दि दे वा शग्रुस्त्रियमेकहा गणी तस्मात्रयाय क्रीणाोह्यरूपम् कृता गन्धर्वे भ्योपक्रम्या तिष्ठत्तद्रोभितो जन्मते देवाद्रुवण्डपयश्वरक्रमेणुपावत्तरे विश्वयामहाय ब्रह्मगन्धर्वा अवदण्डकागन् देवा। देवास्स देवान्पावत्तस्माद्गायन्तज्ञ स्त्रियः कामयन्ते कामुकायेन भवन्ति एवं वेदासोज एवं विद्वाभिजन्येषु भवति चेभ्य एव तृदय बहुगजा क्रीणादिवाचेवेन सर्वया मनुष्यावाचं वदन्तको नगाकर्मो नया सप्तसभया क्रीणादि सर्वयैवेन क्रीणादिगच्छेतया क्रीणेयाब्दुश्चर्मायजमानस्याे स्यात् प्रमायुको यजमानस्याद्यग्द्विरोपया वाग्ने स्यात् समा ्यञ्जलीयात्तम्बान्योजनीयातरुगाभिङ्गाक्ष्याक्रीणाद्योमस्तरूपैनम् देवतगाक्रीणादे अधिरण्यमभवत्तस्मादभ्योहिरण्यम् पुनन्ति ब्रह्मवादिना वदन्ति कस्मात् सत्यादनस्थिकेन प्रजाः प्रवीयन्ते स्थन्वदे जायन्तरण्यम् कृते प्रधादनस्थिकेन प्रजाः प्रवीयन्ते स्थन्वदे जायन्ते तद्वाज्ञाः प्रियन्धामयद्भृदन्ते ज्योहिरण्यमियन्ते शुक्रतमोजलम् वर्जयित्या हसुते जलमेवेन भरेवैन यदबद्धमवदध्याः प्रजानां परापादुकाश्रबद्धमवदधाति गर्भाणां धृत्यै नष्टक्यं बद्धादि प्रजानां प्रजलायवाग्वागेसो भक्रेणेजो रथेत्याह यद्धमनसायवदे तद्वाजावदधिरामनदेत्याह मनसाहिवाग्धृताष्टाविष्टवैत्याह यज्ञो वेविष्ट यज्ञा रुन्धे काण्डे काण्डेवै क्रियमाणे यज्ञगुं रक्षागुंसिखागुं सन्देशोहरः पन्थायोश्च सौर्यस्य च सौर्यस्य चक्षुरारुभमग्ने नक्षके निकामित्याहयवा रक्षोहपन्थास्त्रगुंसमारोहति वाग् यत्सामक्रय नेशस्य मनासेत्याहसामेतत्तस्माच्छष्ठाः प्रजाजायन् देदसेत्याह यद्धि मनसा नेतयते तद्वाजा वदति मनासेत्याह यद्धि मनसाभिगच्छति तत्करोति धीयसेत्याहयभ्य मनसाध्यायदितद्वाजा वदति दक्षिणासेत्याह दक्षिणायजायज्ञयासेत्याहयज्ञयामेवीणा कलो य क्षत्रियासे ुभयदश्रेष्टेत्याहयदेवादित्यप्राहिणे यायज्ञानामादित्य उदयनी यष्टस्मादेव वा देवाभान्ते देवैनाम् प्रब्यादिपोषाध्यात्पात्या हेयं वे कोषे मामेवास्याभिपामकः समष्ट्या इन्द्रायाध्यक्षायत्याहेन्द्रमेवास्याध्यक्षं है करो मातामन्यतामनुजिते त्याहानुमतरीवीनयाक्रीणादिभावि देवमच्चैहेत्याह देवीत्येया देवस्वाम इन्द्राय स्वाममित्याहे दुर्गस्त्वावर्तयत् नित्याहरुद्रोवे क्रोरो देवानान्तमेवास्तेवृत्ते क्रोरमिवत्करो दुर्गस्य कीर्तयति मित्रस्य पथेश्यावशान्ति वाचावाणे च विक्रीणी तेज सोमक्रयण्या स्वस्ति सोमदधा त्याह वाचैव विक्रेय पुनरात्मम् वाचम् भक्तेऽनुपदासुकास्य वाग्भवय एवम् वेदा षट्पदान्यषणहं वाङ्गादिपदसंवत्सरस्यायने वरुन्धे सप्तमे पदे जुहोदि सप्तपदाषक्पले पशवः षट्पले पशुनेवावरुन्धे सप्तग्राम्या पशवः सप्तारण्या सप्तचन्द्रागस्य भयस्यावरुध्यैवस्य रुद्राधेत्याः रूपमेवास्यानेतं महिमानं व्याचष्टे बृहस्पतिस्त्वा वृन्दे वत्कृत्याः ब्रह्म ब्रह्मणैमास्ते पदो नवरुन्ध्रे रुद्रो मधुभिराजघेतेत्याह वृत्यै पृथिव्यास्तामूर्धन्नाजगन् वैजनयित्याः पृथिव्याज्ञेण ते वैजनमिडायाः पदयत्रापदयत्सौ भक्रजन्ये धृजव यस्वाहेत्यावास्ते पदास्मा देवमा हय तद्भज्नाहुयञ्जुया ध्वर्यस्याद्रक्षागुं त्रिरण्यमपास्य भवन्ति काण्डे काण्डे वै क्रियमाणे यज्ञकं रक्षागुं त्रिखागुं हन्ति परिलिखितं रक्षः परिलिखिता अराधयन् ैत्याहद्वौ वावपुरुषो यं चैव द्वेष्टेश्चैनन् द्वेष्टदयो देवानन्तराजीवाकृन्दति पशवो वेदोमक्रयण्यैकैवत्पोदं सम्भवति पशूमेवावरुन्धे स्मेना रीतिसम्भवत्यात्मानमेवाधर्य परिभ्यो नान्तरे ऋत्पेदा रीतिगिरमानाय प्रेच्छति गिरमाणगेव यन्द्रितो तेना रीतिपत्या यत्पत्नी यदा गृहेषु धत्ते तादृशेवष्टीवतीयेत्याहत्वष्टावे पशूनाम् यथुना नागं रोपकृद्रूपमेव पशुष तथा चस्मै वै लोकायकारिकपत्याधीयते पुष्पा आहवणीयो यद्गारिकपत्यस्मिन् लोकेप समान् स्याद्यदाहवणीयमुष्पन् लोकेप समान् स्यादुभयोपवपत्युभयो रेवणम् लोकयोमसुमङ्गम् करोति ब्रह्मवादिनो वदन्ति विजत्य सो न गङ्गाजातस्मि यदापन्नम् गसितमेवाश्र्यद्विजि नियाद्यथास्यािदति तादृशेव दद्यङ्गविजि निजाद्यथा कर्णापन्नम् विधापति तादृशस्यायमान स्वामविक्रयेण सोमगं शोधयेत्येव ब्रूयाद्यतल्यलेतरमुभयेणैव सोमविक्रयेण सोमविक्रये णो हस्पाह उपवेशस्वा मत्रेण एवाहन्ततीयधवनमवरुन्धय इति पशूनाञ्छन् विमीते पशूनैवावरुन्धे पशुवो हितृतीयम् कामगेता पशुस्यालितृक्षलस्तस्य ममीतक्षम् वा अपशव्य पशुनेव भवतीयङ्कामगेत पशुमाञ्च्यालिलो मदस्त्रस्य नमीतैलव्यै पशूलायु लोकयुम् रोपेणैवास्मै पशूनवरुन्धे पशुमानैव भवत्यपामन्ते ीणाच्यमात्यहमेवेन कुरुते शुक्रश्च ग्रहयित्याह शुक्रो यस्य ग्रहो न साक्षयादिमानमेवास्याच्छया साक्षयास्मादना वाक्यगुं समे जीवन यत्र खलु वा जेतगुं जीर्णाहरं यस्माच्छीर्णहार्यं गिरौ जीवनमित्यदिच्छन्द सत्यामेतेऽधिच्छन्दामे ेवन्दच्छन्तारदिच्छन्त सत्यानि मे देवष्मैव कंसमानानाद्यैकैकयोत्सर्गं निमेतय गादयां न्यायालयां यैवेनं निमेते तस्मान् नानावेल्या अङ्कुलयः सर्वास्पं वृक्ष ोऽ्याभिरङ्गुलभृष्टस्मात् सर्वानुसञ्जलजयत्सह सर्वाभिर्गमेत सर्गस्पृष्टा अङ्गुलयोगायैकयो सर्गं विमे दैतस्पाब्भक्ताजाय देव पञ्चकृत्वा यजधा विमे दय पञ्चाक्षरामन्यस्पान्त यज्ञो यज्ञमेवावं दे पञ्चकृतस्तोष्णे संवद्यं ते दशाक्षरा विरालन्नं विराजैवान्नाज्यमव यजुषामिवेते भूतमेवावलन्धे यत्तोष्ण्ये भविष्यद्यद्वैतावानेव सोमस्याद्यापन्तनस्यैवस्यामिष्यां प्रजाभ्यस्तेत्युपोभस्यानेवान् वा भजति वासोपनश्यति सर्वदेवत्यं वैपान सर्वाभिदेवनं देवताभिः समर्थयति पशवो वै सोमप्राणायद्वेत्युपनक्यते प्राणमेव पशुषु तथा दिव्याना यत्पेत्येव पशुषु तथा चिरस्मानात् स्वमन्तम् प्राणा न जहते ीणाने रिपनेतागो अर्धगुं सोमं कुर्यादगो अर्ध्यजमानमगो अर्धमद्धर्यं गोस्तु महिमानं नामतिर गवादय क्रीणाने गो अर्धमेव सोमं करो निगो अर्धञ्जमानङ्गो अर्धमद्धर्युन्न गोर् महिमानमतिरयाधिरण्येन क्रीणा ेवेन क्रेणाधिणातिभासितमेवेन क्रेणात् समेन क्रेणाधिमेवेन क्रेणात् क्रेणाजमर्वा ह्निदेव वह्नेक्यस्य क्रीणादिमिथनाभ्याङ्क्रीणादिनस्यावदद्ध्यैवादसा क्रीणादि सर्वदेवत्यं वैवानः सर्वाभ्येवैनं देवताभ्यक्रीणादिदश सम्पद्यन्ते दसाक्षरा विरारण्यं विराभिला देवान्नाद्यमवरन्धेजपदस्तनोर वर्णयित्याहभ्यदेवदधर्यन्ध आत्मना च्छति श्रेयां वेदशुक्रन्ते शुक्रेण क्रीणामेत्याहयसाय वैकद्देवा वैर्य हिरण्येन सोममक्रीणं तदभेदः पुनरातयो हिरण्येन सोमं क्रीणीयात्तदभेदः पुनराजवेज देवात्मन्धत्तेऽस्मै ज्योजस्वाम विक्रय मैत्याह ज्योजरे यणमर्पयतिकास्ता समागम् सर्वाश्च समागम् सर्पाणामे चाह दन्तशोकास्ताकं समागम् सर्पा भवन्ति तमसा सोमविक्रयणं विध्यति स्वानभ्राते भ्यस्वामक्रयणाम्नामदिषे क्रीतामुष्क्यम् लोके सोमगौ रक्षे गेतेभ्यस्वामक्रयणाम तिशति क्रीताश्चेते स्यामुष्मिल्लोके सोमगम् रक्षन्ति े प्रेतस्वामपनध्वामित्रो न ये कि सुमित्रधाह शान्त्या इन्द्रस्योरुमाविषदक्षिणमित्याह देवा वैयगम् स महे नमिन्द्रस्योरौ दक्षिण आसादयन् ने खलु मायेतरिहीन्द्रो योज तेजस्मा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 त्याहयिवानेन वेददर्धयति यद्वारुणं त्याहवाहवमित्याह वर्णाभित्याह ग्रावाञ्जसा मिति सौर्यचलक्ष्णाजिनम् प्रत्यानख्यजलक्षसामपहत्यापुःस्रावेदन्धोरुषाः वित्याहयसा यदुरेवे यत्प्रत्यपः स्वभुवस्वदीत्याहोधाः विश्वानिषोऽभिधामानि प्रत्यपदेवात्पाविधित्याहयदेवादः स्वामहा क्रियमाणङ्गन्धर्वा विश्वामधम् पर्यमुष्णात्तस्मादेव माहापरिमोषा हिरमानस्य स्वस्ति यज्ञ हैलमानस्यैवज्ञस्यायजमानमभ्यैकेतस्वद्धनमो मित्रस्य वरुणस्य चक्षरीत्याग्निष्ठदेव सम्भवन्तो विजमानमभिजम्भवतः पुराकलुवा वैजमेधायः मानवारभ्यजलति यो दीक्षितोने सोमीयम् पशुमानभद आत्मनिष्प्रेणगे वा सरदस्मात्मदस्य नाश्यम् पुरुषनिष्प्रेण एवमाभ्याम्बा इन्द्रो वृत्रमहन्निधियलग्ने सोमेयम् पशुमानभदेवात्रग्नगे वा सरदस्माद्वाश्यम् परिजरति Wa wow. चादिच्छम् ग्रन्थेयाद्यज्ञम् यच्छन् याज्ञभावविमोर्चयसानागता यादिच्छम् क्रियते तादृगे पदद्विमुक्तोऽन्यो नन्वान् भवत्यविमुक्तोन्योसादित्यम् ग्रन्हादयज्ञस्य सन्तत्ते पत्यम् बालभदेवण्यस्य देवत्यदेवानपदन् नर्मपदे यद्वैपत्रे यज्ञस्य करोति मि सनन्तरसौपत्रिया देवेश यज्ञस्या म् आरम्भानुवक्षे यावद्भर्वे राजानुजरेरागच्छति सर्वे भोमेव्यादित्यङ्क्रियदेशम् रागम् ऋषवे होमस्य राज्ञानुजरान्यज्ञेनाधिच्छमधि विष्णवे तेत्याः गायत्र्या एवेदेन करोति होमस्यादिच्छमधि विष्णवे तेत्याः तृष्टुभ एवेदेन करोमधि विष्णवे त्वेत्याः जगत्या देवी ने द्वाराय स्पोषदामुन्ने विष्णवे चेत्याः निष्टुभय वेदेन करो त्याः गायत्र्या एवेतेन करादिपञ्च कृत्वा गृह्णादि पञ्चाकरा स्परन्तो यज्ञो यज्ञमेवावरन्ते ब्रह्मपादिना वदन्ति कस्मा सत्याः गायत्र्या उभयत आयच्छस्य क्रियते जयदेवादस्वा ममाह रक्तस्मा गायत्रया उभयद आजित्यस्य क्रियते पदस्ता चोपरिष्टा च शिरो वा य लपुरोटा च भवति तस्मान्नोदन्नवगपालपुरोटा च भवजिते त्रयस्त्रिकपालास्त्रिवृतास्तोमेन संविधास्तेजस्त्रिवृत्त यज्ञस्य दीर्घन् वधा च नवगपालपुरोटा च भवजिते त्रयस्त्रिकपालास्त्रिवृता प्राणेन संविधास्त्रिवृत्ते प्राणस्त्रिवृतमेव प्राणमभिपूर्ण्यश्च दीर्घम् प्रजापते कर्मा एतानि पक्ष्माणि गतस्व बाला एक्षवेतिरश्चैकदास्वबाल प्रस्करा भवत्ते क्षवेतिरश्चेत् प्रजापते रेवदश्चक्षस्सं भरति देवाजोस्तासुरा निष्काम मादन्ते देवास्काश्पर्यमपश्यन् कर्म कापि कर्मणेन कुर्वे ते जिते रक्षाकस्य भवन्त्यक्षामहत्ते सज्ञस्परिशय जक्षदावजाना जन पुरस्तात् परिदधात्यादित्योद्यक्षागस्य वहन्त्योद्वैतष्टादेव रक्षागस्य वहन्ते यजान्यान्तोऽष्टे मन्याम् वित्वा ृष्ठत्य ब्रह्मपादिना वसन्तज्ञश्च पायतो सोमश्च कथा सोमानाधिथ्यम् क्रियते नाज्ञामग्निम् वसित्वा प्रहृजनैवाग्नग आदिथ्यम् क्रियते सोऽखण् सर्वा देवता इति यद्धविरासाद्याग्निम् मन्थजिहव्यायैवासन्नाय सर्वा देवता जले ः संयताः सन्ते देवाभिधो विप्रियाः सन्ते छायातिष्ठमानाः पञ्चधाम् विसुधिः सोमरुद्रे सुन्द्रामरद्भ्यर्वरुणादित्ये बृहस्पतिर्विश्व देवैत्य मन्यन्ता सम्भाषण ्यामोऽयं विषोऽप्रिया स्मयास्तनस्ता प्रथमान्यस्मैतस्माद्यस्तदा नो नो न्यभ्रादुर्व्यादि भवत्ते भवत्यात्मना परास्य भ्रातु्या भवतिमञ्जगर् पद्यति पञ्चसाहिवेदत्समवाद्यन्ता स्वापञ्चाक्षरापञ्चपान्तो यज्ञो यज्ञमेवावगन्ध आपदये त्वा ग्रन्थावेत्याह प्राणो वा आपदि प्राणमेव प्रीणादिपरिपदयैत्याह मनो वे परिपदेव प्रीणादितनो नेत्रैत्याह तनुवो हितेदाः समवाद्यन्तशाक्मदायेत्याह शक्ति हि देदास्समवाद्यन्तशक्पण्णोष्ट येत्याहौमश्च नाष्टमित्याहाश्चेतनाधृष्टं देवानामोत्याह देवानारस्तिमाभिरश्चैन्यमित्याःभिरस्तिमाभिरस्त्यैन्यवावज्रं कृत्वा स्ते तच्छरं जयत्तामो नेण प्रजलन् शरघुंसस्ते देव सोमाप्यायदामिन्द्राहेवास्यापारे यन्मीयदेतदेवाश्रीरेनाप्यायत्याभ्यविन्द्रहप्यायतामात्मविन्द्रायप्यायस्तेत्याहोभावेन्द्रञसो मञ्चाप्यायत्याप्यायथे संज्ञा मेधयेत्या हत्रिजो वा अस्य यजस्वस्ति च देव्यामाजास्ते प्रभा ृथिवेभ्यामेव नमस्कृत्यास्मिन् लोके प्रतिष्ठन्ति देवासुराश्रयं प्राविशन्तस्मादाहुरज्ञः सर्वा देवतायज्ञात्वा सुरानभ्याग्निमिव खलु वा प्रविशति योपाम्बरदेश्याम वैदभ्यातम्या विभोत्तेभवत्यात्मना वराहाभ्यातम्या भवत् त्मानमेव देक्षया मारि प्रजाममान्तरदेक्षया सन्तराम् मेखलागम् समायच्छते प्रजाह्यात्मनारतरा सप्तव्रता भवति मदन्ते ब्रह्माजयदेह्यज्ञशीतेन वायति समेध्यै जाते अग्नेद्रया तनो नित्याद्येवतया प्रजय दृशयामिन्त्यै